श्रीहरये नमः अतत्रैयस्त्रिंशोऽध्यायः श्रीसुक इत्तं इत्थं भगवतो गोप्यश्रुत्वा वाच सुपेशलाः जगुर्विरकजं तापं तदङ्गोपचिताशिषहा तत्रारभत गोविन्दो रासक्रीडामनोव्रतैः स्त्रीरत्नैरन्द्वितः प्रीतैरन्योन्याभद्धबागुभिः रासोत्सवसम्प्रवृद्धो गोपीमण्डलमण्डितः योगीश्वरेण कृष्णेन दासामध्ये द्वयोर्द्वयोः प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः यं मन्येरन्नभस्तावत् विमान सतसङ्कुलं दिवौकसां सधाराणाम् औत्सुक्याभकृतात्मनां ततो धुन्दुभयो नेतोर्निपेतु ने पुष्पवृष्ट्य पुष्पव वृष्टयः जगोर्गन्तर्वपतय सस्त्रीकास्तद्यशोमलम् वलयानां नूपुराणां किङ्किणीनां च योषितां सप्रियाणामभुच्छब्दस्तुमुलो राम रासम तुमुलो रासमण्डले तत्रादि सुभेदा तत्रादिषु सुभेताभिर्भगवान् देवकीसुतः मध्ये मणीनां सहमानां धन्यासैर्भुज विदुदिभिः सस्मितैर्भ्रू विलासे सस्मितैर्भ्रूविलासे पद्यन्मयैश्चलकु च पठे कुण्डलैर्कण्डलोलैः स्विद्यन्मुख्य कपररसनाग्रन् ग्रन, रसना रसनाग्रन्थय कृष्णवध्वो गायन्त्यस्तं तटित इवता मेघ्चक्रे विरेजुः उच्चैर्जगोर्नृत्यमाना रक् रक्तकण्ठ्यो रतिप्रियाः कृष्णाभिमर्शमुदिता यद्गीतेनेधमावृतं कासीसमं मुगुन्तेन स्वरजातीरमिश्रुता उन्मीन्ये भूजिता तेन प्रीयता साधु साद्विते तदेव ध्रुवमुन्मीन्ये तस्यै मानं च बह्वदात् का पार्श्वस्तस्य गताप्रदहा जग्राहबाहुना स्कन्धं श्र तत्रैकां सगतं पाहुं कृष्णस्योत्पलसौरभं चन्दनालिप्तमाघ्राय कृष्टरोमा कस्याचिन्नाट्यविक्षिप्तं कस्याचिन्नाट्य विक्षिप्त कुण्डलद्विषमण्डितं गण्डं गण्डे सन्दध्या नृत्यन्ती गायति काचित् कूजन्नो पुरमे कला पार्श्वस्ताश्च्युत हस्ताब्जं श्रान्ताधास्तनयो शिवं गोभ्यो लप्त्वाश्च्युतं कान्तं श्रिय एकान्तवल्लभं गृहीतकण्ठस्तद्दौर्भ्यां गायन्त्यस्त्यं विजह्रिरे कर्णोत्पलालकविटङ्कपोलघर्म वक्त्रश्रियो वलय नूपुरगोषवाद्यैः उभ्यत्समं भगवता ननृसुस्वकेश स्रस्रजो भ्रमरगायगरसो रासगोष्ठ्या रासगोष्ठयाङ्गकराभिमर्श स्निग्धनोद्धाम विलासहासैहे रेसो व्रज सुन्दरी भर्यथार्भगत् स्वप्रतिबिम्बविभ्रमः तदङ्गशङ्कप्रमुदा गुलेन्द्रिया केशान्दुकुलं कुचपट्टिकां वां नाञ्झप्रदिव्योडोमलं व्रज यो विस्रस्तमाला भरणा कुरुद्वः कृष्णविक्रीडितं वीक्षमु केशरस्त्रियः कामार्तिदासशाङ्गश्च सगणो विस्मितोऽभवत् कृत्वा तावन्तमात्मानं यावतीर्गोपयोक्षिता रेमे स भगवान्स्ताभि आत्मा रामोऽपि तासामतिविहारेण श्रान्दानां वदनानि सह प्रामृजत्करुणप्रेम्णा सन्तमेनाङ्गपाणिना बुभ्यस्फुरत्पुरडकुण्डलकुन्दलण्टत्रियासुतीतघासनिरीक्षणेन मानं तदत्यऋषभस्य जगुकृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः साभिर्युतश्रमम् अपोहितमङ्गशङ्गकृष्टस्रजस कुचकुङ्कुमरञ्जितायाः सोम्भस्यलं युवदिभिः परिक्षिक्यमान प्रेम्णेक्षितप्रकसतिभिरितस्ततोऽङ्घ वैमानिकैकुसुमवर्षिभिगीट्यमानो रेमे स्वयं स्वरन्तिरत्र गजेन्द्रलीलः तदस्य कृष्णो भवने जलस्तल प्रसूनकं धानिलजुष्टिक्धिटे दि, सशारभृङ्गप्रणदाम गणाव्रतो यथामतश्चुद्धि द्विरथः करणेऽनुबिहे एवं सशाङ्गां सुविराजितनिशा सस्यस्य कामोऽनुरता बला गणः शिशवे आत्मनि अवृत्तसौरथः सर्वा शरत्काव्यकतारशाश्रया का राजोवाच संस्थापनाय धर्मस्य प्रसमायेतरस्य च अवतीर्णो कि भगवान् हंसेन गीश्वर स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता प्रतीपमाचरद्ब्रह्मन् आप्तकामो यदुपतिकृतवान् वै जुगुप्सितं किमभिप्रायये तं न संशयं चिन्धिसंव्रता श्रीशुक उवाचा धर्मव्यक्तिक्रमो ईश्वराणां च साहसम् ते जीयसाम् न दोषाय भक्ते सर्वभुजो यथा नैतत् समाचरे जातो मनसा पिह्यनीश्वर्यारचरन् मौढ्यात् यथा यथा रुद्रोऽपि भौद्धिमांस्तत्समाचरेत् कुशलाचरितेनैषामिकस्वार्थो न विद्यते विपर्ययेण वानर्तो निरहङ्कारिणां प्रभो किमुता किल सत्त्वानां तिर्यङ्मर्त्य दिवौकशां ईशितुश्चेसितव्यानां कुशला कुशलान्वयः यत्पादपङ्कजपराकनिषेव तृप्ता योगप्रभावविदुता किल कर्मबन्धाः स्वैरं चरन्ति मुनयो विनह्यमानाः तस्येच्छया तव गोपीनां तत्पतीनां च सर्वेषामेव देहिनां योऽन्तश्चरति सोऽध्यक्षक्रीडनेह देहपाद् अनुग्रहाभूतानां मानुषं देहमास्तितः भज एतादृशी क्रीडायां श्रुत्वा तत्परो नासूयन् खलु कृष्णाय मोहितास्तस्य मायया मन्यमानाः स्वपार्श्वस्तान् स्वान् स्वान्तरान् विभ्रजौकसहा ब्रह्मरात्र उपावृत्ते अनिश्चन्त्यो ययोर्गोप्यस्वगृहान् भगवत्प्रिया विक्रीडीतं व्रजवधूबिरितं च विष्णो श्रद्धान्वितोऽनु शृणुया धर्णयेत्यहा भक्तिं परां भगवति प्रतिलभ्य कामं अचिरेण धीरः इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे त्रयस्त्रिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजकी जय